हरि ओम् श्रीसीतारामचन्द्रभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे चतुःपञ्चाशत् सर्गः लक्ष्मणसीतासहितस्य श्रीरामस्य प्रयागे गङ्गा संगमसन्निधो सङ्गमसन्निधो भरद्वाजाश्रमे गमनम् मुनिनाथस्य आतिथ्यकरणम् चित्रकूटे अवस्थातुम् तस्मै सम्मतिदानम् चित्रकूटस्य महत्ताया शोभायाश्च वर्णनम् ते तु तस्मिन् ह वृक्षे उषित्वा अर्जनीं शुभम् विमलेभ्योदिते सूर्ये तस्माद्देशात् प्रतस्थिरे यत्र भागीरथिम् गङ्गाम् यमुनाभि प्रवर्तते जाग्मो सन्देशमुद्दिश्य निगाह्य ते भूमि देशा चापि मनोहरान् अदृष्टपूर्वान् पश्यन्ते तत्र तत्र यशस्विनः यथा क्षेमेण सम्पश्यन् पुष्पितान् विविधान् द्रुमान् निवृत्तमात्रे दिवसे राम सौमित्रिमब्रवीत् प्रयागम् अभित पश्ये सौमित्रे धूममुत्तमम् अग्निर्भय वचकेतुम् मन्ये नूनम् प्राप्ता स्मसम्भेदम् गङ्गायमनयोर्वयम् तथापि श्रूयते शब्दो वारिणो गुरुवारिहर्षजः दारूणि परिभिन्नानि वनजै उपजीविभिः छिन्नाश्चाप्यश्रमेतैते दृश्यन्ते विविधा द्रुमः धन्वी नो तौ सुखम् गत्वा लम्बमाने दिवाकरे गङ्गायिमुनयो सन्धु प्रापतुर्निलय मुनये रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः गत्वा मुहूर्तमध्वानम् भरद्वाजमुपागमयत् तत स्वाश्रममासाद्य मुनैर्दर्शनकाङ्क्षिणौ सीतया नो गतो वीरो दूरा देवावत सप्रवीश महात्मानम् ऋषिं शिष्य गृणैर्वृतम् संशित वृतमेकाग्रम् सपसा लब्धचक्षुषम् होताग्निहोत्रम् दृष्ट्वे महाभाग कुतञ्जलिः रामस्वमित्रिणा सार्धम् सीतया चाभ्यवादय तस्मै लक्ष्मण पुत्रो दशरथस्यावाम् भगवन् रामलक्ष्मणो भार्या ममेयं कल्याणी वैदेही जनकात्मज मां च अनुयाता विजनम् स्वपो वनम् पित्रा प्रव्राज्यमानं नाम स्वमित्री अनुजप्रिय अयम् मन् गमध्राता पलम्बेव भगवन् प्रवेशनम धर्ममें चरिष्याम त्र मूल फलाशन तस् तद्वन शुवा राजपुत्र से धीमता उपनत धर्मात्मा गा मृदक तपे नाध्य मूल फलाश्रयान तेज्यो दप्त तप व्वासवाभ्यक्रुग पक्षीरासिनो मुनिच रामगतेति्य मचा उपवेशजो ब्रवीद्वाख्यम धर्मयुक्त तदा चीरस्थु काकुत्थे पश्यामीहमुपागतम् श्रुतम् तैव मया चैव विवासनम् अवकाशो विविक्तोऽयम् महानद्यो समागमे पुण्यश्च रमणीय च वसतिह भवान् सुखम् एवम् उक्तस्तु वचनम् भरद्वाजेन राघवे प्रत्युवाच शुभम् वाक्यम् रामः सर्वहिते रतः भगवन्नितासन् पौरजनापदो जनः सुदर्शम् इह मां प्रेक्ष्य मन्येऽहम् इमम् आश्रमम् आगमिष्यति वैदेहिं मां चापि प्रेक्षकोचनः अनेन कारणेन इह वासं न रोचये एकान्ते पश्य भगवन् आश्रम स्थानोत्तम रमते ये सुखार जनकात्मज एकुत्र शुभम भरद्वाजो महा मुनि राघव से तो तद्वाक्यम अठ ग्रह्रवीत दश से पुण्य पर्वतः शुभदर्शनः गोलाङ्गूलानुचरितो वानरक्षन्निषेवितः चित्रकूट इति ख्यातो गन्धमादनसन्निभे यावता चित्रकूटस्य नरश्रृङ्गाण्यवेक्षते कल्याणामे समाधत्ते नपापे पापे कुरुते मनः ऋषये तत्र भौ शरदां शतं तपसा दिवमारूढ कपालय शिरसा सह प्रविक्तम् मन्ये भवत सुखम् य वा एव वस रामया सह स रामम् सर्वकामयस्थ सभार्यं सह प्रति जग्राहर्षयन् तस्य प्रयागे रामस्य प्रपन्ना रज निपुण्य चित्र कथयथा कथा चिता तृतीय काकुत्थ परिश्रान्त सुखोचितः भरद्वाजाश्रमे रम्ये तां रात्रिम् अवसत् सुखम् प्रभातायां तु शर्वर्याम् भरद्वाजम् उपागम्य उवाच नर च धूलु मुनिम् जलीत तेजसम् शर्वलिम् भगवन्नद्य सत्यशीले तव श्रमे उषिता स्मोहवसुतिम् अनुजानातु नो तदस्याम् गुष्ट्यायाम् भरद्वाजो ब्रवीदिदम् मधुमूले फलोपेतम् चित्रकूटं व्रजेति ह वासम् औपैकं मन्ने, तव रामबल नानागगणोपेत किन्नरो रसेवितः मयूर नादाभिरतो गजराज निसेवितः गम्यताम् भवता शैले चित्रकूटः सविच्रितः बहुमूले फलायुतः तत्र कुञ्जर यूथानि मृगयूथानि चैव विचरन्ति वनान्तेषु तानि द्रक्षसि राघवे सरित्र श्रवणप्रस्थान् दरी कन्दर निर्धरन् चरते सीतया साधन् दन्दिष्यति मनस्तव प्रवृष्ट को यष्टि भयो किल विनोदयन्तं च सुखं परं शिवम् मृगश्च मत्तये बहुभिश्च कुञ्जरी सुरम्यमासाद्यतमावसाश्रयम् इत्याश्री श्रीमद् रामायणे वाल्मीकि अधिकार्ये वृद्धाकाण्डे चतुः